श्रीगणेशाय नमः श्रीगौरी शङ्कराभ्याम् नमः अथ श्रीशिवमहापुराणे विद्येश्वरसंहितायाम् चतुर्थोऽध्यायः श्रवणकीर्तनमननानाम् श्रेष्ठत्वम् मुनयवोचु मननम् <्माननां> कीदृशम् ब्रह्मन् श्रवणम् चापि कीदृशम् कीर्तनम् वा कथं तस्य कीर्तयेतद्यथायथम् चे पूजा च पेश गुणरूप विलासनाम्ना युक्तिप्रियेण मनसः परिशोधनं यत् तत्सन्ततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधन वरेष्वपि मुख्य मोक्षम् गीतात्मना श्रुतिपदेन च भाषया वा शम्भूप्रतापगुणरूप विलासनाम्ना वाचास्फुटं वनम् यदस्य तत्कीर्तनम् भवतिसाय, स धनमत्र मध्यम् केनापि केन कर्णेन च शब्दपुञ्जम् यत्र क्वचित् शिव परम् श्रवणेन्द्रियेण तद्वै बुधा श्रवणमत्र जगत् प्रसिद्धम् सत्सङ्गमे न भवति श्रवणम् पुरस्तात् तत् सङ्कीर्तनं प्रजुपते रथ तद् सर्वोत्तमम् भवति तन्मननं तदन्ते सर्वं हितं भवति शङ्करदृष्टिपते अस्मिन् साधनमाहात्म्ये पुरावृत्तम् मुनीश्वरः युष्मादर्थं प्रवक्ष्यामि शृणुध्वम् अवधानतः पुरा मम गुरुर्व्यास पराशैर मुनैः सुतः तपश्च सम्भ्रान्त सरस्वत्याय तटे शुभे गच्छन् यद्रुच्छया तत्र विमानेनार्क रोचि रोचिषाय सनत्कुमारु भगवन् ददर्श मम देशिकम् ध्यानारूढ प्रभुद्धोसो दोषो ददर्शे तमजात्मजम् प्रणिपत्याः सम्भ्रान्त परं प्रददो देवयोग्यं च विष्टरम् प्रसन्न प्राहतं प्रौहम् प्रभु गुर्गम्भीर यागिर सुनकुमार सत्यं वस्तु साक्षात्करणगोचरशिवोऽ सहायोत्र सपचरसि किं कृते एव कुमारेण प्रोवाच स्वाचयं मुनिः धर्मात् काममोक्षा च वेद मार्गे कृतादाः बहुधा स्थापिता लोके मया कृपया तथा मेप्य गुरुभूत मुक्ति साधनक ज्ञानम नो वे परमात तप्रा मुक्म न जाने त्रारण इतंकुम भगवान्यासे न मुनी सह विप्रेन्द्र निश्चय मुक्ति कारण श्रवणम् कीर्तनं शम्भो मननं च महत्तरम् त्रयं साधनमुक्त च विद्यते वेद सम्मतम् पुराहम् अथ सम्भ्रान्तु धन्यसाधन सम्भ्रमः अचले मन्दरे शैले तपश्चरणमाचरम् शिवाज्ञया त भगवान् नन्दिकेश्वरः लूर्भगवान् सर्वसाक्षि गणेश्वर उवाच मयस्नेहम् मुक्तिसाधनमुत्तमम् श्रवणं कीर्तनं शम्भो मननं वेद सम्मतम् त्रिकं च साधनं मुक्ते शिवेन मम भाषितम् श्रवणादि त्रिकं ब्रह्मन् कुरुष्वेति मुहुर्मुम् मुक्त्वा ततो व्यासम् सानुगोविधिनन्दनः जगामः स्वाभिमानेर पदं परमशोभनम् एवम् समासेन पूर्ववृत्तान्तमुत्तमम् ऋषय उचो श्रवणादित्रयं सूतः मुक्त्योपाय स्वयेरितः श्रवणादि त्रिके शक्तः किं कृत्वा मुच्यते जनः अयत्नेनैव मुक्तिः स्यात् कर्मणः केन हेतुनः इति श्री शिव महापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् साध्यसाधनखण्डे चतुर्थोऽध्यायः श्रीगौरी